स्वर्गं तर्टीन् वपुषां परमेण भूधराणामधसम्भाव्यपराक्रमम् विभेदे मृगमाशु विलोकयाञ्चकारिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः स्फुटबद्धसडोन्नदिसदूरादभिधावन्नवधिरिधान्यकृत्यः जयमिच्छदि तस्य जातशङ्गे मनसीमं मुहुराददे वितर्कम् घनपोत्रविदीर्णशालमूलो निबिडस्कन्धनिकाषरुग्णवप्रः अयमेकचरोऽभिवर्तदे मां समरायेव समाजुहूषमाणः इह विदभयास्तपोनुभावाजह दिव्याल मृगाः परेषु वृत्तिं मयितां सुतरामयं विधत्ते विकृधि किं नु भवेदियं नु माया कृतज्ञयेव पूर्वं भृशमासे विदयारुषानमुक्तः अवधूय विरोधिनी किमादान् मृगजातिरभियादिमां जवेन न मृगकलु कोऽप्ययं जिखांसुस्खलदिह्यत्र तथा भृश्यं मनो मे विमलं कलुषी भवच्च चेधकदयत्येव हितैर्षिणं रिपुं वा मुनिरस्मिनिराग स कुतो मे भयमित्येषनभूदयेऽभिमानः परवृद्धिषु बद्धमत्सराणां किमिव ह्यस्ति दुरात्मनामलङ्घ्यं दनुजस्विदयं अभिभूय तथा हि मेखनीलसकलं कम्पयदेव शैलराजम् अयमेव मृगव्यसत्र कामः प्रहरिष्यन्मयि मायया शमस्ते पृथुभिर्ध्वजिनीरवैरकार्षी चकितोद्भ्रान्तमृगाणि काननानी। बहुशकृदसत्कृतेर्विधातुं प्रियमिच्छन्नथ वा सुयोधनस्य क्षुभिदं वनगोचराभियोगात् गणमाशिश्रियदा कुलं तिरश्चाम् अवलीढसनाभिरश्वसेनः प्रसभं काण्डवजादवेदसा प्रतिकर्तुमुपागतसमन्युकृतमन्युर्यदि वा मृगोदरेण बलशालितया यथा धियमुच्छेदपरामयं दधानः नियमेन मया लाभमराधिभङ्गमाहुः कुरुतादतपांस्य मार्गदायी विजयायेत्यलमन्वशान्मुनिर्माम् बलिनश्च वधादृतेस्य शक्यं व्रतसंरक्षणमन्यधानकर्तुम् इति तेन विचिन्त्य चापनामप्रथमम् पौरुषचिह्नमाललम्बे उपलब्धगुणः परस्य भेदे सचिवशुद्ध इवा अनुभाववदा गुरुस्थिरत्वादविसंवादि धनुर्धनञ्जयेन स्वबलव्यसनेऽपि पीड्यमानं गुणवन्मित्रमिवा प्रविकर्षनिनादभिन्नरन्ध्रः पदविष्टम्भनिपीडितस्तदानीम् अधिरोहदिगाण्डिवं महेशौ सकलसंशयमारुरोहशैलः ददृश्येदसविस्मयं शिवेन स्थिरपूर्णायदचापमण्डलस्थः रचितस्तिसृणा पुरां विधातुं वधमात्मेव भयानकः परेषां विचकर्ष च संहिते शुरुच्चैश्चरणा स्कन्दननामिदाचलेन्द्रः स भवस्य भवक्षयैकभेदोः सिधसप्तश्च विधास्यदो सहार्थं रिपुरापरा भवाय मध्यं प्रकृतिप्रत्यययोरिवानुबन्धः अददीपिदवारिवाफवर्मा रववित्रासिदवारणादवार्यः निपपादजवादिषु पिनाकान्महदोभ्रादिव वैद्युदकृशानुः व्रचतोस्य बृहत्पदत्र जन्मा कृद तार्क्ष्योपनिपादवेकशङ्गः प्रदिनाद महान् महोरगाणां हृदय श्रोत्र विद्युत्पपादनादः नयनादिवशूलिनप्रवृत्ताैर्मनसोऽप्याशुतरं यदः पिशङ्गैः विदधे विलसतडिल्लताभैः किरणैर्व्योमनिमार्गणस्य मार्गः विवरे अभय धनुषिवाकस्थर्विवरे सभीरिख्य जिहानुगदृशे विशन तदुपोट न भर पृष्त्क सदमालिभे ऋपौसुराण कननीहार इवा विषकृतवेगः भयविप्लुदमीक्षितो न भस्थैर्जगदीं ग्राह इवा पगां जगाहे सपदि प्रियरूपपर्वरेखसितलोहाग्रनखकमाससाद कुपितान्तकतार्जनाङ्गुलिश्रीर्व्यथयन् प्राणभृदकभिध्वजेषु परमास्त्रपरिग्रहो रुतेजस्फुरदुल्काकृदि विक्षिपन्वनेषु सजवेन पदन् परशदानां पदताम्राद इवारवविधेने अविभाविद निष्क्रमप्रयाणशमितायामयिवादिरम्भसा सह सह पूर्वतरं नु चित्तवृत्तेरपधित्वा नु चकारलक्ष्यभेदं सवृषध्वजसायकावभिन्नं जय हेतुप्रदिकायमे शणीयं लघुसाधयितुं शरप्रसेहे विधिनेवार्थमुदीरिदं प्रयत्नः अविवेकवृद्धाश्रमाविवार्धं क्षयलोभाविव संश्रितानुरागं विजिगेषुमिवानयप्रमादावसादं विशिखौ विनिन्यतुस्थम् अधदीर्घतमं तमः प्रवेक्ष्यन् सहसा रुग्न रयससम्भ्रमेण निपतन्तमिवोष्ण रश्मिमुर्यां वलयीभूततरुन्तरं च मेनि जगदः क्षुदिमुष्णशोणितार्द्रः कुरदंष्ट्राग्रनिपादधारिताश्मा असुभिः क्षणमीक्षितेन्द्रसूनुर्विहितामर्ष गुरुध्वनिर्निराशे स्फुटपौरुषमापपादपार्थस्तमधप्राज्यशरशरम् जिघृक्षुः न तथा कृतवेदिनाम् करिष्यन् प्रियदा मेदि यथा कृवदानः उपकार इवा सदि प्रयुकृतस्थितिमप्राप्य मृगे गदप्रणाशं कृतशक्तिरवाङ्मुखो गुरुत्वात् जनितव्रीड इवात्मपौरुषेण ससमुद्धरता विचिन्त्यतेन स्वरुजम् कीर्तिमिवोत्त मां दधानः अनुयुक्ता इव स्ववार्तमुच्चैः परिरेभेनुभृशं विलोचनाभ्यां तत्र कार्मुकभृदं महाभुजः पश्यति स्म सहस्र शासनं कुसुमचापविद्विषः सप्रयुज्यतनये महीपदेरात्मजादिसदृशीं किलानतिं सान्ध्वपूर्वमभिनीतिहेतुकं वक्तुमिद्धमुपचक्रमे वचः शान्तता <mí> मानसं विनययोगिमानसं भूरिधामविमलं तपश्रुदं प्राहतेऽनुसदृशी दिवौकसा मन्ववायमवदादमाकृतिः दीपितत्वमनुभावसम्पदा कौरवेण लखयन्महीभृदः राजसे मुनिरपीकरयन्नाधिपत्यमिव शातमन्यवम् तापसोऽपि विभुदामुपेयीवानास्पदं त्वमसि सर्वसम्पदां दृश्यदे हि भवतो विना जनैरन्वितस्य सचि वैरिवद्युदिः विस्मयक्क वा जय नैव जयश्रिया मुक्तिरिधे दवीयसी ईप्स तव दुभाश्रय क्युर्जिद गुण कृपय निमते जसन्व सत्त्वमिद्धमुपपन्नपौरुषः अर्तुमर्हसि वराहभेदिनं नैनमस्मदधिपस्य सायकं स्मर्यते तनुभृदां सनातनं न्याय्यमाचरितमुक्तमैर्नृभिः ध्वंसदे यदि भवा दृश्यस्ततः प्रयादु वदते न वर्त्मना आकुमारमुपदेष्टुमिच्छ वः सन्निवृत्तिमपधान्महापदः योगशक्तिजिदजन्मृत्यवः शीलयन् दीयतयः सुशीलतां तिष्ठदां तपसि पुण्यमासजन् सम्पदोऽनुगुणयन् सुखैषीणां योगिनां परिणमन् विमुक्तये केन नास्तु विनयः सदा प्रियः नूनमत्र भवतः शराकृतिं सर्वधायमनुयादिसायकः का। स्वयमित्यनुपपन्नसंशयः कारितस्त्वमपधे पदं व्यया अन्यदीयविशिकेन केवलं निःस्पृहस्य भवितव्यमाहृदे निघ्नदपरनिबर्हितं मृगम् व्रीडितव्यमपि ते सचेतसः सन्ददम् निशमयन्त उत्सुका यैः प्रयान्ति मुदमस्य प्रीडयन् विचरितानि मानिनम् अन्यदोषमिव सस्वतं गुणं ख्यापयेत् कथमधृष्टता जडः उच्यते स कार्यवत्तया दिग्विभिन्न बुध सेदुमर्धितां दुर्वजम् तदधमास्म भून्मृगस्त्वय्यसौ यद करिष्यदोजसा नैनमाशु यदि वाहिनीपदिः प्रत्यक्पत्स्यदक्षिदेन पत्रिणा कोन्विमम् हरिदुरङ्गमायुधस्त्ययसिं दधदमङ्गसंहतिम् वेगवत्तरमृदे चमूपदेर्हन्धुमर्षदि शरेण दंष्टृणम् मित्रमिष्टमुपकारि संशये मेदिनीपदिरयं तथा च ते तं विरोध्य भवता लभ्यमेकसुकृतेन दुर्लभा रक्षिता रमसुरक्ष्यभोदयः स्वन्दमन्दविरसाजिगीषदां मित्रलाभमनुलाभसम्पदः चञ्चलं वसुनितान्तमुन्नता मेदिनीमपि हरन्त्यारादयः भूधरस्थिरमुपेयमागदं मा वंस्तसुहृतं महीपतिं जगुमेव भवदा तपस्यते नयुधानि दधदे मुमुक्षवः प्राप्स्यते जसकलं महीभृदा सङ्गतेन तपः त्वया वाजि भूमिरि वाजिभूमिरिभराजपानम् सन्धिरत्ननिचयाश्च भूरिशः काञ्चनेन किमिवास्य पत्रिणा केवलं न सहते विलङ्घनं सावलेपमुपलिप्सिदे परैरभ्युपैति विकृतिं रजस्यपि अर्धितस्तु न महान् समीहदे जीवितं किमु धनं धनायितुं तत्तदीयविशिखादिसर्जनादत्तु वां गुरु वप्रेम। वा युक्दमिदरे राघवप्लवदराजयोरिवप्रेम युक्तमिदरेतराश्रयं नाभियोक्तुमृतं त्वमिष्यस्य कस्तपस्विशिखेषु चादरः सन्धिभूभृदि शराहिनः परे ये पराक्रमवसूनिवज्रिणः मार्गणैरध तव प्रयोजनं सुहृदमेत्यसोऽर्थिनं किं न तेन सूरिरूपकारिताधनः कर्तुमिच्छति न याचिदं वृधा सीदमनुभवन्निवार्थिनां वेद पदिषु स्वयं गृहम् प्रेमकारयदि वा निरत्ययम् कारणद्वयमिदं निरस्यदः प्रार्थनाधिकबले विपत्फला अस्त्रवेदमधिगम्यतत्वदः कस्य चेहभुजवीर्यशालिनः चामदग्न्यामपहाय गीयदे पसेषु चरितार्थमायुधम् अभ्यथानि मुनिचापला त्वया यन्मृगः क्षितिपदेः परिग्रहः अक्षमिष्टतदयम् प्रमाद्यताम् संवृणोति खलु दोषमज्ञता जन्मवेषतपसाम् विरोधिनीम् मा कृधा पुनरमोमपक्रियाम् आबदेत्युभयलोकदूषणी वर्धमानमपधेहि मा दुर्मदिं यष्टुमिच्छसि पितृन्न सा्रदं संवृतोर्चि च येषुर्दिवौकसः किं मृगेङ्गविशिखं न्यवीविशः सज्जनोऽसि विजहीहि चाबलं सर्वदा क इव वा सहिष्यदे वारिधिनिव युगान्धवायवः क्षोपयन्त्यनिभृदा कुरूनभि अस्त्रवेदविधयं महीपतिः पर्वदीय इति जीगणः वजीगणः गोपिदुम्भुवमि मां मरुत्वदा शैलवासमनुनीय लम्भितः तत्तिक्षितमिदं मया मुनेरित्यवोचद वचश्च मूपदिः बाणमत्र भवदे निजम् दिशन्नाप्नुहि त्वमपि सर्वसम्पदः आत्मनिनमुपतिष्ठदे गुणाः सम्भवन्ति विरमन्ति चापदः इत्यनेकफलभाजिमास्म भूदर्थिता कथमिवार्यसङ्गमे दृश्यदामयमनोकहान्तरे सिक्महेदि पृतनाभिरन्विदः सा हि वीचिरिव सिन्धुरुद्धदो भूपदि सद्यं धनुर्वहदि यो हि पदिस्तवीयः अस्यानुकूलयमदिं मिमन्ननेन सख्या सुखं समभियास्यसि चिन्तितानि यदि श्रीभारविकृतौ किरीतार्जुनीये महाकाव्ये दूतवाक्यं नाम त्रयो